श्री श्रीजगदंबिकाये नम अथ श्रीम देवी भागवत महापुराणे प्रथमस्कंधे विशोध्याचस्त पिद्धि आप सत्तम किं चकार तथो व्यास तनो सुतवाच तरह उवाच शिष्याव्यास्या सन् वेदाभ्यासपरायणः आज्ञामादायते सर्वे गता पूर्वम् महीतले अचितो देवनश्चैव वैशम्पायन एव च जैमिनिश्च सुमन्तुश्च गता सर्वे तोधना तन्ेतान् ता वीक्षपुत्रं च लोकान्तरितमप्युदय वैश्यश्चोकसमाक्रान्तो गमनाय करोन्मतिम् तस्मार मनसा व्यास तां निषाद सुतां शुभां वासम् जाह्नवीति मुक्तां शोकसमन्वितां स्मृत्या सत्यवतीं व्यास त्यक्त्वा जन्मस्थानं सुखं मुरी दीपं प्राप्या स पप्रच्छता सा वरानना निषादास्तं समाचख्युः दत्ता रे तु कन्यक दासराजोऽपि सम्पूज्य व्यासं स्वागते पुरस्सरम् स्वागतेनाभिसत्कृत्य प्रोवाच पीताञ्जलिः दासराज उवाच अद्य सफलं जन्म पावितं न कुलं मुरे देवानां पि दुर्दर्शम् यज्जातं तव दर्शनं यदर्थम् आगतोऽसि त्वं तद्ब्रूही द्विषसत्तम अपि दाराधनं पुत्र त्वदायत्तम् सरस्वत्या सटेदम्ये चकाराश्रममण्डलम् व्यास तपस्तयुक्त तत्रैवास समाहित सत्यवत्या सुतो दातो शन्तनो रमितद्युती मत्वा भ्रातरो व्यास सुखमापवने स्थित चित्राङ्गद प्रसमजो रूपवान् चतुर्तापरः बभूव नृपते सर्वलक्षणसंयुतः चित्रवीर्यनामासो द्वितीय समुदायत स्वी सर्वगुणोपेत शन्तनो सुखवर्धनः गङ्गेय प्रथमस्तस्य महावीरो बलाधिक तथैव तौ सुधो दातो सत्यवत्यां महावलो, शंसनृत्तान् सुतान् वीक्ष्य सर्वलक्षणसंयुतान् अमन्ता जय्यमात्मारं देवादीनां महामनः अथ नकेता, केता शन्तनुः काल पर्ययात् तत्याज देहम् धर्मात्मा देहि जीर्णम् इवाम्बरम् काल धर्मगते राज्ञी भीष्मचक्रे विधानस प्रेतकार्याणि सर्वाणि दानानि विविधानि चित्राङ्गलम् ततो राज्ये स्थापयामास वीरिवान् स्वयं न कृतवान् राज्यं तस्माद् देवव्रतो भवेत् चित्राङ्गदस्तु वीरेण प्रमत्तः परदुःखर बभूव बलभात्यात्मजी अथैकदा महाबाहु सैन्य पश्चान् पश्चन् बध्यान् मृगान् नृजून् चित्राङ्गदस्तु गन्धर्वो दृष्ट्वा तं मार्गं नृपम् उत्ततारान्तिकम् भूमे विमान्ध वरमासीद भूच्च महद्युद्धं ततो सदृश वीर्ययो कुरुक्षेत्रे महास्थारे त्रीणि वर्षाणि तापसा इन्द्रलोकम् विवापाशु गन्धर्वेण तोरणे भीष्म श्रुत्वा चकाराशु तस्योढ दैहिकं ददा गाङ्गेय्यकृतशोकस्तु मन्त्रिभिः परिवारितः विचित्रवीर्य नामानं राजेशं चकारः मन्त्रिभिर्बोधिता पश्चात् गुरुभिश्च महात्मभिः स्वपुत्रं राज्यं दृष्ट्वा पुत्रशोक हतापि च सत्यवत्यति सन्तुष्टा बभूवै वरवर्णिनी व्यासोऽपि भ्रातरं श्रुत्वा राजा न मदितोऽभवेत् यवनं परमं प्राप्त सत्यवत्या सुतश्चकारचिन्तां भीष्मोऽपि विवाहार्थं गणीयस काशीराजसुशासित्र सर्वलक्षणसंयुतः तेन राज्ञा विवाहार्थं स्थापिता चयंवरे राजानो राजपुत्रा च समाहूता सहस्रज इच्छा स्वयंवरार्थं वै पूज्यमाना समागतः तत्र भीष्मो महतेजा ताजहरे बलेन वै निर्मजकं सर्वं रथेन्दीर्यवान् सज्जित्वा पातिवान् सर्वान् सा चा दायमारथ बाहुवीर्येण तेजस्वी यासता दजाभयम् मातृवद् भगिनी वच्च पुत्रीवच्चिन्तयन् किलये तिस्रसमानयामास कन्यका वामलोचनः सत्यवत्ययेन वेद्यासु द्विजाहूय सत्वर दैवज्ञानवेद पर्यपुच्छ शुभम् दिनम् कृत्वा विवाह संभारम् यदा वै भ्रातरम् निजम् विचित्रवीर्यम् धर्मिष्ठम् विवाहयतिता यदा तदा ज्येष्ठा प्युवाचेदम् कन्यकदन विसुतम् लज्जमाना सिता पाङ्गी तिसॄर्णाम् चारुलोचन गङ्गापुत्र कुरु श्रेष्ठ धर्मज्ञ कुलदीपक मया प्रतोस्ती वृतस्ती मनसानृपेता हम तेन चित्ते कुले। यथा चिते प्रेम कुलस्यास्य यहाँग्यम कुल परंदम मृतपूर्वस्मी तमच धर्म बलवान बलवान्ेय यथे चसी तथा कुरु सुस्वाच एव मुक्त कन्या कु नंदन तत्पृच्छद्ब्राह्मणान् बुद्धान् मातरम् सचिवान् तथा सर्वेषां मतमाज्ञाय गाङ्गय्यो धर्मवित्तमः गच्छेति कन्यकाम्प्रे यथा रुचि वरानने विसर्जिताथ सातेन तेन गता शाल्वानिकेतनम् उवाच तं वरारोहा राजानम् मनसेक्षितम् विनिर्मुक्तास्मि भीष्मे तन्मनन् तन्मनस्केति धर्मतः आगतास्मि महाराज गृहानाद्य करं मम धर्मपत्नी तवात्यन्तं भवामि नृपदत्तमय चिन्तितोऽसि मया पूर्वं त्वया हृं न संशय शाल्भवाच वृहीता तं वरारोहे भीष्मे न पश्यतो मम रथे संस्थापिता न गृहीष्य तव परक्षिष्ठां च कन्याम् गृह्णाति मतिमान्नरः अतोऽहं न गृहीष्यामि त्यक्ताम् भीष्मेण मातवत् रुदती विरपन्ति सा त्यक्ता तेन महात्मना पुनर्भीष्मम् समागत्य रुदति चेदमब्रवीत् सर्वमुक्ताम् त्वया वीर न गृह्णाति गृहाणमाणम् धर्मज्ञोऽसि महाभाग मरिष्याम्यन्यथा ह्ययं अन्नचित्तां कथं तत् वै वर वर ने ने पितरं वै गृह्णा पितरं संवरारोहे व्रज शीघ्रं निराकुला ततो सा तु भीष्मे जगामेवै तपश्चकार विजने तीर्थे परमपावने दै चाति चातिरूपाणि तस्य राज्ञो बभूवतु अम्बालिका चाम्बिका काशीराज श्रुतै शुभे राजा विजित विचित्र वीर्यसौ ताभ्यां सह महाबल विहारै च गृहे च उपवने तथा वक्षाणेन राजेन्द्र कुर्वन् क्रीडां मनोरमा प्रापाश मरणं भूयो गृहीतो रज लक्ष्मणा मृते जाता सत्यवती तदा कावयामास पुत्रस्य प्रेतकार्याणि मन्त्रिभिः भीष्म माहे तदेकान्ते वचनं चाति दुःखिताय राज्यं कुरु महाग पितु ते चन्दते भ्रातृभार्यां भा... गृहत्वं वंशं च परिरक्षये यथा न ना नाश मायाति यया ते वंश भीष्म उवाच पतिन्या मे श्रुता मातः न चाहं दार संग्रहम् श्रुतो वाच तदा चिन्ता तु राजाता कथं वंशो भवेदिति नालसाधिपन्ने ह्य राजके गाङ्गे वाचेदं मा चिन्तां कुरु भामिनी पुत्रं विचित्र वीर्यस्य क्षेत्रजं च उपपादय कुलीनं द्विजमाहूय वध्वासः नियोजय नात्र दोषो तिरिवेरेऽपि कुलरक्षाविधौ किल स्तोत्रम् चैव समुत्पाद्य राज्यं देहि शुचिस्मिते अहं च पालयिष्यामि तस्य शासनमेव हि तच्छ्रुत्वा वचनं तस्य कानेन स सुतं मुनिन् जगाम मनसा व्यासं वैपायनम् अकल्मषम् स्मृतमात्र सदो व्यास कृत्वा प्रणामं मात्रे सितो दीप्तिमान्मुनिः विश्वेण पूजितः कामम् सत्यवत्या च मानितः तस्थोत्तत्र महतेजा विधो मोग्नि वा परः तम् वाच मुनि माता पुत्रमुत्पादयधुनः क्षेत्रे विचित्र वीर्यस्य सुन्दरं तव वीर्यम् व्यासश्रुत्वा वच मातुः आप्तवाक्यम् अमन्यत ॐ इत्युक्त्वा तत्र ऋतुकालम् अचिन्तयत् अम्बिका च यदा स्नाता नारी ऋतुमति तदा सङ्गम् प्राप्य मुने पुत्रम् असुतान्धम् महबलम् जन्मान्धं च सुतंवीक्ष्य दुःखितः सत्यवत्यपि द्वितीयां च वधूमः पुत्रम् उत्पादय शु वै ऋतुकाले व्यासेन सह तथा चाम्बारिका रात्रौ गर्भं नारी दधार्ता स्वी पाण्डुसो दातो राज्ययोगो न सम्मतः पुत्रार्थे प्रेरयामास वर्षान्ते च पुनर्वधूम् आहूय च तथो व्यासं सम्प्रार्थ्य मृतत्तमम् प्रेषयामास रात्रौ सा शया नागारमोत्तमम् च वधू तत्र प्रेषय सम्प्रेषिता तया तस्यां च विदुरो दातो दास्यां धर्माञ्चतः शुभ तेपुत्रा व्यासेन ते पुत्र धृतराष्ट्रादयत्रय उत्पादिता महावीरा वंश तस्य वंशसमुद्भवम् व्यासेन रक्षितो वंशो धातुर्धर्मविधान इति श्रीमद्देवी भगवते मा पुराणे अष्टादशसहस्रम् वैतायाम् प्रथमस्कन्धे धृतराष्ट्रादीनाम् उत्पत्तिवर्णनं नाम विञ्चोऽध्यायः समाप्त श्री समाप्तः श्रीजगदम्बिकायार्पणमस्तु